गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् ट्वेण्टि फोर् क उवाच पदिते सिन्धुदैत्येतु हदशेषारणे स्थिताः आययोर्गण्डकीं यावत् तावत् पुग्रा दुर्गाचक्रपाणिरधिष्ठन्विह्वला भृशं तावत् तेषां दुष्टचिह्नं बभूव विविधं तदा पुदक्षिराप्रसुष्वाप काश्चित्तत्राशुभावहः जानुनोर्मस्तकन्यश्च तस्तौ तूष्णीम् चलन्निव हनौ पाणितलं न्यस्य तस्तौ काचिन्मुदं विना यदस्मिन्नन्तरे दूदा यमदूदा इवायययुः अदिम्लानमुखादीना नाब्रुवन्मुखदां गदाः पृष्ठास्ते प्राहुरपरे वृत्तान्तं रणभूगदं। दूता ऊचुः असङ्ख्याकान् महावीरान् हत्वा सिन्धुर्दिवं गतः बालानस्मान् परित्यज्य तेन हीना रुदामहे निरीक्ष्य देवान्निहदान् क्रुद्धो गाद्गिरिजासुतः अस्त्रैरस्त्राणि संवार्य मुमोचपरशुंसितं तेन सिन्धुर्मृतस्तत्र पदि दोधरणीतले मुमूर्चुस्तत्र सर्वेऽपि तदीया नागराश्चः श्रुत्वा वार्तां दूतमुखाद् द्रुरुदुः विललापाधदुर्गा सजखान शिर उत्कटं मुग्रकेशा मुहुर्वक्त्रं निघ्नदी जाननी चास्य चक्रपाणिपिदा तदा पौराश्च रुरुदुस्तत्र निघ्नन्धः पाणिनामुखम् अवनौ आस्वाल्य लुलण्ढुर्घोरनिस्वनाः कच्चिद्धूलिं निचिक्षेपमुखे शिरसि दुःखितः हस्तपृष्ठं ददं शान्यास्ताभ्यां भूमिमदाहनद अशपन् स्त्रियो भङ्क्त्वा कराङ्गुलीः उग्रोवाच नानायत्नैस्तपसा सूर्यतुष्ट्या नत्यास्तुत्या लङ्खनैः सर्वदानैः प्रातःकालान्मखतस्त्वं कथञ्चिच्छूरो माणिकेन नीतो सिरेत्वम् त्रिलोकनायकेन संश्लाघ्या त्रैलोक्यमण्डले शपिष्यन्ति च मां लोका हद भाग्यासि साम्प्रतं जिदाकृदान्तपूर्वं ते कधं तेन समागमः प्राप्तस्त्वया कधं पुत्र न जितः पुनरेव सः सकामो गिरिजा पुत्रस्त्वयि यादे दिवं सुत माम पृष्ट्वा कथं यादस्वर्गलोकं सुखावहम् दुःखितायां मयि सुत कथं सन्तोषमेष्यसि गर्जन्दिनैव हि मोदास्त्वयि गर्जति पुत्रः कथं पुत्र पतितस्त्वं रणाङ्गणे दुर्गोवाच देहैक्यं कृतवान् धादा दम्पत्योर्वेदर्शनाद् प्राणैक्यं न कृतं तस्माद् ब्रह्मणा मूढबुद्धिना नाहं शचीं च सावित्रीं सौभाग्यमदगर्विता गणयामिन चान्याश्च सा कथं विधवा भवं स्वहस्तेन जकस्तूरीं चन्दनं च यदा भवान् चर्चदि स्म तदाङ्गानि शीतलानि ममाभवन् इदानीं दह्यमानानि शोकेन तानि निर्वप न क्षयसि पूर्वं त्वं मद्विना विषमन्वपि स कथं मां विना स्वर्गसुखं भोक्ष्यसितादृश्यम् अपराधं विना भृत्ये नो दासीना भवन्दिः साधवस्तमशीलश्च तत्कथं मामुपेक्षसे उपाधिरहितं प्रेमकृतं नानाविधं पुरा अनिर्वाच्यं कथं त्यक्त्वा तद्गतोऽसि सुरान्तक क उवाच तपोवृद्धा ज्ञानवृद्धा प्राब्रुवन्निष्ठुरं वचः नरोदनं प्रशंसन्ति धर्मशास्त्रविदो जनाः यदश्रुसुहृदा मास्येप्रेदस्य तत्पदे ध्रुवं तस्मात्तस्य हितं यत्स्यात् तत्कर्तव्यम् दयावता विचार्यमाणे तस्यापि मोक्षो दायि कृपावता निर्गुणेन चिदानन्दकनेन ब्रह्मरूपिणा दयापरवशाज्जन्म बिभ्रता लोकसङ्कृता मयूरेशेन सङ्ग्रामे निघ्नता सम्मुखं चदम् आत्मनो नैव मरणं नोत्पत्ति क्वापि विद्यते अनादित्वान् निर्गुणत्वान् नृत्य द्वेदनिश्चयाद स्वार्थे हि रोददे जन्तुर्हिदम् प्रेदस्य नेहते असख्यभारवाद्देवी न भारं सहदे धरा प्रेदस्य शेषकमठो वराहोः सौ इत्युक्त्वा ते तदा शोकम् विजहुरर्बुद्धवाक्यदः उग्राच च चक्रवाणिश्च दुर्गा च सखिभिः सह नागराश्चापि शोचन्दो ययुःसङ्ग्राममण्डलम् ददृश्युसेवकै सिन्धुम् रणाङ्गणे पदिदम् वक्त्रकमलं व्यादाय शितलोचनम् अश्रुस्रवन्दम् दुर्गन्धम् पक्षिष्वापदसङ्कुलम् उपविष्टास्तु परितः शोचन्दो भृशदुःखिताः शिरस्तस्य दुर्गाशोचत्करस्वना पादवाहन नाथ हस्ताभ्या पूर्वमाचरद जनमध्ये नक्य प्राणनायक शु जीवदी निद्रा धं विराधि गसी तुखे स्थापय्वाम आहाकार साकरोद न्यषेधन् वृद्धविज्ञास्तां तद उग्राब्रवीध्वजः चक्रपाणिः पिदाचास्यं क्षालयन्तौ शुशोचतम् उत्तिष्ठवत्स किं शेषे शेषे शे रिपुगणे सति वज्रीवज्राहद इव पतितो धरणीतले इदानीं बालयुद्धे त्वं कथं निपतितो भुवि जिदकृदान्तो भ्रूक्षेपात् तद्वश्यं कथमागतः किञ्चिद्वाक्यं वद विभो हृदयानन्दकारकम् यस्य शब्देन त्रैलोक्यं कम्पते स्म पुरा कथं स्ववचनं नाद्य वदसे मन्दविक्रम नावाभ्यामपराद्धं ते येन मौनं त्वमाश्रितः न भाषसे रोष वशात्सेनाशेष समन्त्रित कथं विह्वलतां कामेभ्यो जितवान्नृच ततो विज्ञाश्च वृद्धाश्च नानादृष्टान्तदर्शनैः समादग्ध्युप्ररुददो मृतानुमरणं नहि रामो दाशरधि किं नु लोकान्तरगतो नहि विक्रमेण रिपुं जित्वा गदः किं न रघुत्तमः अन्येऽपि शतशो भूपास्त्वत्कृते मरणं गदाः कीर्तिं नानाविधां कृत्वा स्वर्गस्था सुखमश्नुते क उवाच ततस्ते संस्कृतिं चक्रुर् दुर्गा सह सपी गुणा तदो यय मयूरेशं चक्रपाणी सनागर नमस्कृत्य प्रतुषाव बद्धाजलिपुदशन राजुण चरा चरगतिर्भो त्रयी गम्यो गुणाध्यक्षो विरजो विश्वनायक तवैव मायया देवा मोहितस्त्वां न देविदुः अहं धन्यो नागरिका धन्यास्त्वद्दर्शनाद्विभो क उवाच एवं तेनस्तुदो स्तुदो देवः उवाच तत्वविद देव उवाच वरं वरयमत्तस्त्वं चक्रपाणि सदार्भक राजोवाच यदि तुष्टोऽसि देवेश यदि देयो वरो मम तदा गृहानुपागच्छ पुनीः नगरीमिमां क उवाच एवमाकर्ण्यतद्वाक्यं बर्हिणं स समारुहत गिरिजायुद अग्रतस्ते गणः सर्वे मुन हर्षनिर्भराः वाद्यत्सु सर्ववाद्येषु युयुस्थे गण्टकीं पुरीं नानाध्वजपदा काभिर्युधां संसिक्तपद्धतिम् इति श्रीगणेशपुराणे क्रीडाखण्डे चतुर्विंशत्युत्तरशततमोऽध्यायः ओ